ॐ गोमत्यै नमः ॐ गीताय नमः ॐ गान्धार्यै नमः ॐ गानलोलुपाय नमः ॐ गौतम्यै नमः ॐ गामिन्यै नमः ॐ गाधाय नमः ॐ गन्धर्वाप्सरसेविताय नमः ॐ गोविन्दचरणाक्रान्तायै नमः ॐ गुणत्रयविभावितायै नमः ॐ गन्धर्व्यै नमः ॐ गह्वर्यै नमः ॐ गोत्राय नमः ॐ गिरीशायै नमः ॐ गहनाय नमः ॐ गम्यै नमः ॐ गुहाभासायै नमः ॐ गुणवत्यै नमः ॐ गुरुपापप्रणासिन्यै नमः ॐ गुर्व्यै नमः ॐ गुणवत्यै नमः ॐ गुह्याय नमः ॐ गोप्तव्यायै नमः ॐ गुणदायिन्यै नमः ॐ गिरिजाय नमः ॐ गुह्यमातङ्ग्यै नमः ॐ गरुडध्वजवल्लभायै नमः ॐ गर्वापहारिण्यै नमः ॐ गोदाय नमः ॐ गोकुलर्भायै नमः ॐ गदाधराय नमः ॐ गोकर्णनिलयाशक्तायै नमः ॐ गुह्यमण्डलवर्तिन्यै नमः ॐ घर्मदायै नमः ॐ घनदाय नमः ॐ घण्टाय नमः ॐ घोरदानवमर्दिन्यै नमः ॐ गृणिमन्त्रमय्यै नमः ॐशाय नमः ॐ घनसम्पातदायिन्यै नमः ॐ घण्टारवप्रियायै नमः ॐ घ्राणाय नमः ॐ घृणीसन्तुष्टिकारिण्यै नमः ॐनारिमण्डलाय नमः ॐ घूर्णाय नमः ॐ घृताच्यै नमः ॐ गणवेगिन्यै नमः ॐ ज्ञानधातुमय्यै नमः ॐ चर्चायै नमः ॐ चर्चितायै नमः ॐ चारुहासिन्यै नमः ॐ चटुलायै नमः ॐ चण्डिकायै नमः ॐ चित्रायै नमः ॐ चित्रमाल्यविभूषितायै नमः ॐ चतुर्भुजायै नमः ॐ चारुदन्ताय नमः ॐ चातुर्यै नमः ॐ चरितप्रदायै नमः ॐ चूलिकायै नमः ॐ चित्रवस्त्रान्तायै नमः ॐ चन्द्रमःकर्णकुण्डलायै नमः ॐ चन्द्रहासायै नमः ॐ चारुदात्र्यै नमः ॐ चकौर्यै नमः ॐ चन्द्रहासिन्यै नमः ॐ चन्द्रिकाय नमः ॐ चन्द्रधात्र्यय नमः ॐ चौर्यै नमः ॐ चूराय नमः ॐ चण्डिकायै नमः ॐ चञ्चद्वाग्वादिन्यै नमः ॐ चन्द्रचूडाय नमः ॐ चूरविनाशिन्यै नमः ुचन्दनलिप्ताङ्ग्यै नमः ॐ चञ्चच्चामरविजितायै नमः ॐ चारुमध्याय नमः ॐ चारुगत्यै नमः ॐ चण्डलाय नमः ॐ चन्द्ररूपिण्यै नमः ॐ चारुहोमप्रियायै नमः ॐ चारवायै नमः ॐ चरिताय नमः ॐ चक्रवाहुकाय नमः चन्द्रमण्डलमध्यस्थायै नमः ॐ चन्द्रमण्डलदर्पणायै नमः ॐ चक्रवाकस्तन्यै नमः ॐ चेष्टायै नमः ॐ चित्राय नमः ॐ चारुविलासिन्य नमः ॐ चित्स्वरूपाय नमः ॐ चन्द्रवत्यै नमः ॐ चन्द्रमाय नमः ॐ चन्दनप्रियाय नमः ॐ चोदयित्र्यै नमः ॐ चिरप्रज्ञाय नमः ॐ चातकाय नमः ॐ चारुहेतुक्यै नमः ॐ क्षत्रयाताय नमः ॐ क्षत्रधराय नमः